नारायणीयं दशकं सेवेण्टि फोर् मीटर् शार्दूलविक्रीडितम् सम्प्राप्तो मधुरां दिनार्धविगमे तत्रान्तरस्मिन् वसन्नारामे विहिदाशनसखिजनैर्यादः पुरीमीक्षितुं प्रापो राजपथं चिरश्रुतिधृतव्यालोक कौतूहलस्त्री पुंसोऽद्यतगण्यपुण्य निगदैराकृष्य माणोनु किम् त्वत्पादद्युदिवत्सराग सुभगास्त्वन्मूर्तिवद्योषितः विलसत्पयोधररुचो, विलः लोला भवद्दृष्टिवद आरुण्यस्त्वदुरस्थली वदयिते मन्दस्मितप्रौढिवन्नैर्मल्योल्लसिधा कजौहरुजिवद्राजत्कलापाश्रिताः तसामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुतव्यालोलेषु जनेषु तत्र कञ्चित्पडीं प्रार्थयन् कस्ते दास्यदिराचकीयवसनं या हीदि तेनोदिदः सद्यस्तस्य करेण शीर्षमहृदासोऽप्यापपुण्यां गतिं भूयो वायकमेकमायदमधिं तोषेण वेषोचितम् दाश्वां सं स्वपदं निनेद सुकृतं को वेद जीवात्मनां मालाभिस्तभकैस्तवैरपि पुनर्माला कृतमानिदो भक्तिं तेन वृतां दिदेशिदपरां लक्ष्मीं च लक्ष्मीपदे कुब्जामब्जविलोचनाम् पथि पुनर्दृष्ट्वाङ्गरागे तया दत्ते साधु किलाङ्गरागमददास्तस्या महान्दं हृदि चित्तस्तामृजुतामथप्रथयितुं गात्रेऽपि तस्या स्फुटं गृह्णन्मञ्जुकरेण तामुदन तावन्निश्चितवैभवास्तव विभो वा नात्यन्तपापा जना यत्किञ्चिद् ददते स्म शक्रियनुगुणं ताम्बूलमाल्यादिकं गृह्णा तदा मार्गे निबद्धाञ्जलिर्ना दः यदोऽद्यविपुडा मार्तिं व्रजामि प्रभो येष्यामे दिविमुक्तयापि भगवन्नालेपदात्र्या तया दूरात्कातरया निरीक्षितगदिस्त्वम् प्राविशो गोपुरम् अघोषनुमितत्वदागममः हर्षोल्लद्देवकी वक्षोजप्रगलत्पयोरसमिषात्वत्कीर्तिरन्तर्गता आविष्टो नगरीं महोत्सवतीं कोदण्डशालां तेजसानु तेजसानुपुरुषैर्दूरेण दत्तान्तरः स्रग्भिर्भूषितमर्चितम् वरधनुर्मामेदि वादात्पुरः प्रगृह्णाः समरोपहः किल समाक्राक्षीरभाङ्क्षीरपि श्वकंसक्षपणोत्सवस्य पुरतः प्रारम्भ तुर्योपमश्चापध्वंस महाध्वनिस्तव कंसस्यापि जवेपधुस्तदुदिधक् को दण्ड खण्डद्वयी चण्डाभ्या हदरक्षि पूरुषरवैरुत्कूलितो भूत्वया शिष्ठायैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या तदः प्रविचरन् सायम् गदो वाटिकाम् श्रीदाम्ना सह राधिकाविरहजम् खेदम्वदन् प्रस्वपन्नानन्दन्नवदारकार्य खडनाद्वादेश संरक्ष माम् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द